श्वरः गुरुसाक्षात् परम् ब्रह्म तस्मै श्रीगुरवे नमः अखण्डमण्डलाकारम् व्याप्तं येन चराचरम् तत्पदं दर्शितम् येन तस्मै श्रीगुरवे शलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः स्थावरं जंगमं व्याप्तं येन कृष्णं च राचरम् तत्पदं दर्शितम् येन तस्मै श्रीगुरवे नमः चिद्रूपेण परिव्याप्तं त्रैलोक्यं सचराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः सर्वश्रुतिशिरोरत्न समुद्भासितमूर्तये वेदान्ताम्बुजसूर्याय तस्मै श्री गुरवे नमः ैतन्यशाश्वतः श्रान्तो व्योमातीतो निरञ्जनः बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः ज्ञानशक्तिसमारूढः तत्त्वमाला विभूषितः मुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे अनेकजन्म सम्प्राप्त कर्मेन्दन विदाहिने आत्मज्ञानाग्निदानेन तस्मै श्रीगुरवे नमः शोषणम् भव सिन्धुश्च प्रापणं सारसम्पदः यस्य पादोदकम् सम्यक् तस्मै श्रीगुरवे नमः गुरोरधिकम् तत्त्वम् न गुरोरधिकम् तपः तत्त्वज्ञानात् परम् नास्ति तस्मै श्रीगुरवे नमः मन्नाथ श्रीजगन्नाथः मद्गुरु श्रीजगद्गुरुः मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः गुरुरादिरनादिश्च गुरुः परमदैवतं गुरुः परतरं नास्ति तस्मै श्रीगुरवे नमः ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशम् तत्त्वमस्यादिलक्ष्यम् एकम् नित्यं विबलवचलम् सर्वधि साक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुतां नमामि